श्रीमद्भागवत् महापुराणं पञ्चमस्कन्ध मत्प्राप्तये ज्ये ससुरासुरादय स्तप्यन्तग्रं तप एन्द्रिये धियः ऋते भगवत्पदं परायणान्न मां विन्द्यन्त्यहं तद्धृदया यतोजित स त्वं ममा व्यत्युत श्रेष्णिवन्दितं कराम्बुजं यद्वदधायि सात्वताम् विवर्सि मां लक्ष्मणं दरेण्यमायया कईश्वरस्य एहितं मोहितुं विभुरिति रम्यकेच भगवत प्रियतमं आस्यं हास्यम् अवताररूपं तद्वर्षपुरुषस्य मनो प्राक् प्रदर्शितम् स इदानीम् अपि महता भक्तियोगे नाराधयतीदं चोदाहरति ॐ नमो भगवते मुख्यतमाय नमः सत्त्वाय प्राणाय उजसे सहसे बलाय महामस्याय नम इति अन्तर्बहिश्चाखिलोकपालकै अधेष्टरूपं विचरस्युरुष्वनः स ईश्वरस्त्वं जयिदम्बसेनयनाम्नाय ता दारुमयीं धर श्रियम् यं लोकपाला किलं मत्स्सरज्वरा हित्वायतन्तोऽपि पृथक् समेत्य च पातुं न शैकुर्द्विपदश्चतुष्पदः सरिसृपं ताड्यदद्रविन्दिश्यते भवान् युगान्तार्णव ऊर्मिमालिनी छोडिमि माबोषदिरुधां निधिं मया सहोरु क्रमतेज ओजसा तस्मै जगद्ब्राणगणात्मने न हिरण्मयेऽपि भगवान् निवसति कुर्वतनुं बिभ्राणस्तस्य तत्प्रियतमां तनुमर्यमा स वर्षपुरुषैः पित्रीगणाधिपतिरुपधावति मन्त्रमिमं चानुजपति ॐ नमो भगवते आकूपाराय सर्वसत्व सर्वसत्त्वगुणविशेषणायानुपलक्षितस्थानाय नमो वल्स्मले नभो भुम्ले नमो नमोऽवस्थानाय नमस्ते यद्रूपमेतन्निजमाययार्पितम् अर्धस्वरूपं बहुरूपरूपितं सङ्ख्यान यस्यात्यथोपलम्भन्नात् तस्मै नमस्ते व्यपदेशरूपिणे जरायुजं स्वेदजमण्डजोद्भिदं चराचरं देवरसि पितृभूतमेन्द्रियम् जौखं चितिसैलसरिसमुद्रद्विपग्रसहर्येत्यभिधेयैक यस्मिन् सङ्ख्येयविशेषनामरूपाकृतौ कविभिः कल्पितेयं सङ्ख्यायया त्वं दिशापनीयते तस्मै नमः शाङ्ख्यति दर्शनायतेति उत्तरे सूच कुरुषु भगवान यज्ञपुरुष चितवराहरूप आस्ते तं तु दैवी हयसा भूषः कुलभेदस्खलितभक्तियोगेतोपं प्रधावति इमां च परमामुपनिषदम् आवर्तयति ॐ नमो भगवते मन्त्रतत्त्वलिङ्गाय यज्ञकृतमे महाध्वरावयवाय महापुरुषाय नमः कर्मशुक्लाय त्रियुगाय नमस्ते यस्य स्वरूपं कवियो विपस्थितो गुणेषु वेदसं। मथ्यनन्ति मथ्ना मनसा दुरिक्षवो गूढं क्रियार्थैनमीरितात्मरे दव्यक्रिया हे त्वयदेशकृतिभिः मायागुणैर्वस्तु निरीक्षितात्मरे अन्वीक्षयाङ्गातिशयात्मबुद्धिभिः निरस्तमायाकृतये नभो नभः करोति विश्वसितसंयमोदयं यस्तेप्सितं देप्सितमेक्षितुर्गुणैः माया यथायो भ्रमते तदाश्रयं ग्राम्णो नमस्ते गुणकर्मशास्थिरैः प्रमत्थितैत्यं प्रतिवारणं मृते योजां दशाजा जगदादिसूकरः कृत्वाग्रदष्टे निर्गादुतन्वतः क्रीडन्तिमेभ प्रणतास्मितं विभुमती श्री श्रीमद्भागते महापुराणे परंसां चैतायाम् पञ्चमस्कन्धे भुवनकोशवर्णनं नामाष्टादशोऽध्यायः